श्रीहरये नमः अत द्वादशोऽध्यायः श्रीसुक उवाच क्वचित्मनासाय मनोदतप्रजात् प्रभोतयन् शृङ्गरवेण चारुणा विनिर्गतो वत्स पुरःसरोहरिः तेनैव साकं पृथुकास्सहस्रसहा स्निग्धा सुिग्त्र विषाणवेणवः स्वान् स्वान् सहस्रोपरिसङ्क्ययान्वितान् वत्सान् पुरस्कृत्य कृष्णवत्सै असङ्ख्यातै शीतीकृत्य स्ववत्सकान् चारयन्तोर्भलीलाभिर्विजकृस्तत्र तत्प्रहा फलप्रवालस्तभगम् सुमनः पिच्च धातुभिः काच कुञ्चामणि स्वर्णभूषिता अभ्यभूषयन् मुष्णन्तोऽन्योन्यसिक्यधीन् ज्ञाता नाराश्च चिक्षिभुः तत्रत्याश्च पुनर्दूरात् असन्तश्च पुनर्धतुः यदि दूरं गतः कृष्णो वनशोभेक्षणायतम् अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमि रे केचित् वेणोन्वादयन्तो केचित् बृङ्गैः प्रघायन्त कूजन्तः कोकिलैः परे विच्छायाभिप्रधावन्तो गच्छन्तः साधुहंसकैः भगैरुपविशन्तश्च नत्यन्तश्च कलापिभिः विकर्षन्तः कीशभाला नारोहन्तश्च तैर्ध्रुमान् विकुर्वन्तश्च तैः प्लवन्तश्च पलाशिक्षोः साकम्भेगैर्विलङ्घन्तसरित्प्रवस्रवसंप्लुताः विकसन्तः प्रतिश्चाया सपन्तश्च प्रतिस्वनान् इत्तं सतां ब्रह्मसुखानुभूद्यां दास्यं गतानां परदैवतेन मायाश्रितानां नरधारकेण साकं विजह्रुकृतपुण्यपुञ्ज्याः यत्पादभांसुर्बहुजन्म कृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः स एव यत् किं वर्णये दुष्टमतो व्रजौकसा तेषां सुखक्रीडनभीक्षणाक्षमः नित्यं यतन्तर्निज दीविदे सुभिः प्रतीक्षते दृष्ट्वार्भकान् कृष्णमुखानगासुरः कंसानुशिष्टः सखभगीभगानुजः अयं तु मे सोदरनासकृत्तयोर्द्वयोर्मबलं हनिष्ये एते यथा मत्सुहृदोऽस्तिलापः कृतास्तधा नष्टसमावृजौकसः प्राणे गते वर्ष्मसुखानुचिन्ता प्रजासवः प्राणभृतो हियेते इति व्यवस्याजगरं बृहत् बभुः धृत्वाद्भुतं व्यात्त गुहाननं पथिव्यसेतग्रसनाशया कलः धराधरोष्टो जलदोत्तरोष्टो धर्याननान्तो गिरिशृङ्गतं ध्वान्तान्धरास्यो वितदात्व जिह्वा परुषानिलस्वासदवयक्षणाक्षणः दृष्ट्वा तं सर्वे मत्वा व्यात जगरतुण्डेन ह्युत्प्रेक्ष्यन्ते स्म लीलया अहो मित्राणि गतत सत्त्वकूटं पुरस्थितम् अस्मत्सङ्ग्रसन व्यातव्यालतुण्ढाय अहो मित्राणि गततः सत्त्वकूटं पुरस्थितम् अस्मत्सङ्ग्रसन व्यातव्यालतुण्ढाय सत्यम् अर्ककरा रक्तम् उत्तारहनुवद्घनम् अधराहनुवत्प्रोतस्तत्प्रतिष्ठायया ऋणं प्रतिस्पर्धते शृकिभ्यां सव्यासव्येनघोधरे तुङ्गशृङ्गालयोगे स्तास्तद् धंष्ट्रा चपश्यत आश्रुततायाम आश्रुततायाममार्गोऽयं रसनां प्रति गर्जति येषामन्तर्गतं ध्वान्त मे तदप्यन्तराननं धावोष्णकरौ वातोऽयं त्वासवद्भाति पश्यथ अस्मान् किमत्र ग्रसितानि विष्टान् अयं तथा चेत् भगवन् विनङ्क्ष्यति क्षणादनेनेति भगारुसन्मुखम् वीष्योर्दसन्तः करधाटनैर्ययुः इत्थम् इदो तत्यमदज्ञभाषितं श्रुत्वा स्वानां निरोद्धुं भगवान् मनोधते तावत् प्रविष्टात्स्त्वसुरोधरान्तरं परं न गीर्णा शिशवः सवस्ताः प्रीतीक्षमाणेन बकारिवेसनं हतस्वकान्तस्मरणेन रक्षसा तान् कृष्ण सकलाभयप्रतो ह्यनन्त्यनादान् स्वकराधवश्च्युतान् दीनांश्च मृत्योर्जडराज्ञिकासान् गृहार्तिदोदिष्टकृतेन विस्मितः कृत्यं किमत्रा कलस्य जीवनं न सतां विहिंसनं द्वयं कथं स्यादिति संविचित्य तत् ज्ञात्वा विसस्तुण्टमशेषदृग्हरिः तदा गनश्चधा देवाभयात्काकेतिशुक्रशोः जह्रुशूर् येचकं साध्या कौणपास्त्वगबान्धवाः तच्छ्रुत्वा भगवान् कृष्णस्त्वय यत्सार्भवत्सखं सूर्णीचिकीर्षो आत्मानं तरसाववृधे घले ततोतिकायस्य निरुद्धमार्गिणो ह्युद्गे न दृष्टे भ्रमदस्त्वितस्ततः पूर्णोऽन्तरङ्गे भवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् दृष्ट्या स्वयोत्थाप्य तधन्वितः भगवान् विनिर्ययो पीनाकि भोः अद्भुतं महत् ज्योतिस्वधान्ना ज्वलयद्धिषो दश प्रतीक्षकेवस्थितमीश विवेश तस्ता दिवोकृष्टा स्वृतर्ण सुरा असरश्च नर्तन गीत सुगावाद्यधराक विभ्राजयनिस्व नैर्गण तद्दुतस्त्र सुवाद्य गीति जयादिनैकोत्सवमङ्गलस्वनात् श्रुत्वा स्वधाम्नोत्यज आगतो शिराद् दृष्ट्वा मही सस्य जगामविस्मयं राजन्ना जगरं चर्म सीक्ष्मं बृन्धावनेद्भुतं प्रजौकसाम्बहुदितं बभूवा किरीटगः परम् एतत् हरेरात्मा हि मोक्षणम् मृत्योपौकण्डके भाला दृष्ट्वो चूर्विष्मिता व्रजे नैतत् विचित्रम् अनुजार्भमायिनः परावराणां परमस्य वेदसः अगोऽपि प्रापात्मसाम्यं त्वसतां सुदुर्लभम् सहृत्यदङ्गप्रदिमान्तराहिता मनोमयी भागवतीं दधौ गतिं स एव हि किं पुनः श्रुत उवाच श्रुत्वा स्वरातुश्चरितं विचित्रं पप्रश्च भूयोऽपि तथैव पुण्यम् वैयास किं यन्निगृहीतचेताः राजोवाच ब्रह्मकालान्तरकृतं तत्कालीनं कथं भवेत् यत् कौमारे हरिकृतं जगो पौघण्टे केर्भगाः तद्भ्रूमि मे महायोगिन् परं कौतूहलं गुरो नूनमेतत् हरेरेव माया भवति नान्यता वयं धन्यतमालोके कुरोऽभि क्षत्रबन्धवः यत्पिभामो मुकुस्त्वद्धः पुण्यं कृष्णकथामृतं सुत वाचा, इत्तं स्म पृष्टसधुभातरायणे स्तस्मारितानन्तग्रतागिलेन्द्रियः कृश्रात् पुनर्लब्धबहिर्दृशिः सनैः प्रत्यागतं भागवतमुत्तमोत्तमा इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्ते द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथ महाराजकी जय